शुक्राम् वा यन्त्यसूरायन्दिरम् पिपामीयुवाः अथ कपापरिष्कृतोपायाङ्गी विमस्वधिजोलिम् हिन्वन्ति जातावे तमस्य मर्जयामसिमदोलिम् प्रपादामः गङ्गा वा आसदर्दधः पुराणोऽनम् च सूरयाः गङ्गाधया पुराण्यानमभ्यानोषतन्दधीतयोः देवानाम्ना मिभ्राजीः समुक्षमा नवम् जेवारे पुनन्ति धर्मसिम् दूतन्न पूर्वचित्तया सा सते मनीषिणाः तपो नानामदिन्दवस्वश्चमोषो सीदति वसौ नरेता से धियः समृद्धते सुकर्माभिर्देवो देवेभ्यः सुतः सुहीरपो विवाहते सुत इन्दोपवित्रातो विनीयते इन्द्रागमत्सरिन्दमश्चमोष्वानिषीदसि न्दे अध्युगामि वत्सन्नपूर्वायो निजातम् देहन्ति मातराः नानयम् दवाभारसोमध्युमर्हसं आशुषो गृहे वन्ध्यम् मनोजिकम् श्रिकावृक्षमिनरम् युः तं वसू निवार्थी वा दिव्या च सोमपुष्यसि परिते जिगृशो यथा धारा सुदस्य धावति रङ्गामानाव्या अव्ययं वारम् आदीव सा नसिः रे दक्षाय न कवेपवस्व सोमधाराय इन्द्राय च अपस्तमा चातामः पवित्रे धारायासुतः इन्द्राय सोमविष्णामे दे देवेभ्योमधूमत्तमः दे वाम् व्रीहन्दि मातरोहरिम् पवित्रे अद्रुहाः वत्सम् जातम् न धेनवः पवमानविधर्मणि पमानमहि श्रवश्चित्रेभिर्यासिरश्मिभिः श्रद्धन्नवां दिल्लिघ्नसे विश्वानि दासुषो अगृहे र्याञ्चमयम् व्रत पृथिवीं चा ते जभृषे रद्रापि वा मुञ्जसा पमानमहि त्वना होरपि वादयमलाः ओ हरिः ओ खा यो दीर्घयुक्ष्म यो धारया पावकया परिप्रसन्दते सुतः इन्दुरः सो नकृत्याः नरसोमम् विश्वाच्याधिया यज्ञम्भ्यन्वन्त्यद्रिभिः सुतासो वधूवन्तमासो मा इन्द्राय मन्दिनः अवित्रावन्दोऽक्षरम् देवान् गच्छन्तु गोमदाः इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् वाचस्पतिर्मकस्य देवि स्वस्ये सा न भोजसा सहस्रधारः पवते समुद्रो वाचमे खयः ीरयीनाम् सुखेन्द्रस्य दिवे दिवे अजम्भूजा रजिर्भगः सोमः पुलानो अर्षति अजर्विश्वस्य भूमानो यक्षद्रोदरसीभुभे सोमप्रिया नोषटा भोमलाः जघृष्वाजः सोमाः स कृण्वते भसः यपोज्येष्ठस्तमाभरपवमानश्रवार्यम् यः पञ्चदर्शनीमहै सोमापवन्त इन्दभोस्मभ्यम् गातु वित्तमाह मित्रासुवारेपसः स्वाध्यः स्वर्विदाः सुवा नासोऽव्यद्रेभ्यश्चिदा नागोरधि त्वजि ङ्गसुभिधाः एते भूताश्चिदः सोमाः सोदध्याः शिरः सूर्याः सोनदर्शदासो जिघत्नवोध्युवाघृते प्रसृन्मानस्यान्ध सोमतो नेतद्वचाः जाविरक्ते अंयतभुजेन पुत्रभून्योः सरजारो नयोम्भरोनयोनिभासम् वीरोदक्षसाधानोऽस्तम् भरोदसी हरिष्पवित्रे अंयतवेधानयोनिभासदम् अव्योपादे विद्पवते सोमो गव्ये अधित्वसि अनिकृतदृशाहीरिन्द्रस्याब्धेतिनिष्कृतम् क्राणाशिशुर्महीनाम् हिन्वन्मृतस्य दीहीतिम् विश्वापरिप्रिया भोपदधद्विता उपकृतस्य बाह्योरभक्तयग्गुहापदम् यज्ञस्य सप्तधामभिरधप्रियम् ृतस्य धारजा पृष्टेष्वे रायम् विमीते अस्य योजनापि सुक्रतोः यज्ञानम् सप्त मातरो वेधामसा सतश्रिये अजम् ध्रुवोरायीनाम् चिके तजत् अस्य व्रते स योजसो देवासो अद्रुहाः स्वार्गभवन्दिरम् तयोजुषम् तजत् ी गभ्यमृतावृधो दृशे चारुपजी जनन् कविम्बम् ज्यष्टमध्वरे पूरुस्पृहम् समीचीने अभिरुत्मना जग्भीर्तस्य मातरा अन्वारा यजमानुषग्यदञ्जते कृत्वा शुक्तेभिरक्षभिर्णरपव्रजम् दिवः च्वरे कपो नानाय भेदसे सोमायवचब उज्यतम् हृजन्नभरामतिभर्जुजोषते परिवाराञव्यजागोभीरञ्जानो अरिषति श्रीरथस्थानानः कृणुते हरिहे। परिकोशम् मधुश्च्युत भव्यजयवारे अरिषति अभिवारेषीनाम् सप्तनोषत अरीरे रामदीराम् विश्वदेवो पदाभ्यः सोमः पुनानः सम्मोर्विषद्धरीः परिगैभीरनस्वधा इन्द्रेण याहि सर्वथम् पुरानो भागद्वागद्भिरमत्यः परिसप्त्यर्नवाजयुर्देवो सखाजा निषीरत पुनाय प्रकाशत श्रिसन्न यज्ञे उत्पदे भूषतश्रिये समे वत्सन्न मातृभिः सृजता गजसाधनम् देवाव्या अमरमभिद्विषावसम् पुनाता दक्षसाधनम् यथा सर्धाय वीतये यथा वित्राय परोनाय सन्त स्मभ्यम् तावसुभिमभिवानीरणोषत गोभिष्टे वर्णमभिवासयामसि स नोः मदानाम् पतयिन्दो देवत्स नासि सखे वसख्ये गाजवित्तमोभव सनेमिकृध्यामदा रक्षसङ्कम् चिदत्त्रिणम् अपादेवम् द्वयमम् हो योधिनः संवत्सखाजो मदाय पुराणमधिगायत श्रीदुन्दयज्ञेश्वरयन्त गोतिभिः संवत्सजीव मातृभिरन्दरयन्वा नो अर्जते देवायैर्मदो मदिभिः परिष्कृतः अयम् दक्षाय साधानोऽयम् श्रद्धाय भीतये अयम् देवेभ्यो मधु मत्तमः सुतः गोमन्नयिन्दो अश्व वत्सुदस्सुदक्षधन्व सुजिम् देवर्णमधिकोशो जीधरम् स नो हरीणाम् पदयिन्दो देवप्सरस्तमः सकलेवदख्येन स नेविद्वस्मदादेवम् कञ्चिदत्रिणम् आह्वारिवाधो अपद्वयम् इन्द्रमच्छ सुता जिमे वृषाणम् जन्तु हराजः सृष्टि जाता स इन्द्रावस्वर्विदाः अयम्भरायसा नसिरिन्द्राय पवते सुतः सोमो चेत्रस्य चेतजियसाभिदे अस्येदिन्द्रो मदेष्वा द्राभम् गृह्रीतसा नसिम् वरज्रम् रथन् वाधो भजाग्रेभिरिन्द्रायेन्दो परिस्रव युवन्तम् दुष्ममाभरा स्वर्विदम् इन्द्राय वृषणम् मदम् पवस्वभिश्वदर्शतः सहस्रामापथिकृद्विचक्षणः अस्मभ्यम् गाधुवित्मो देवेभ्यो मधुमत्तमः सहस्रम् गाहि पतिभिः अवस्वदेव वीरीतजयिन्दोधाराभिरोचसा आरसं मधूमान् सोमनः सदा तव द्रप्साभूदप्रदयिन्द्रम् मदाय माधुः त्वाम् एमासो अमृतायकम् पापुः आनः सुतासयिन्दवः पुनाधावतारयम् वृष्टिद्या वो वोरीत्यापस्वर्विदाः सोमः पुराणभूर्मिनाभ्योपारम् विधावति अग्रे वाचः पवामानः कलिक्रदत् देभिर्हिन् बन्दिवादिनम् वने क्रीडम्भिम् अभित्रे वृक्षम् हदयः समस्वरन् असजिकलसाम् अभिमीढे सप्तर्नवायुः पुरानो वादम् जनयन् अधिश्वदत् अपते वर्यतो हरिरदिहपराम् शिरम् अभ्यर्षन् स्तोदृभ्यो वीरभजसाः अजापस्वदे भजर्मसोद्वारा असृक्षत रेभन् पवित्रम् पर्येभिस्वताः पदीतो सुताम् सोमो जगो त्वमम् अभि धन्वायो अप्सुवा अन्तरा सुषावसो मम त्रीभिः नूनम् पू नानो विपरिश्रमालब्धस्वरविन्दरः श्रुते जिह्वाप्सु मादा मोमन्दासा श्रीरन्तो गोभिरुत्तरम् परे सुमानश्चक्षसे पुराणस्वादारायापो वसा नो हर्षसि आरत्नता यो निसीदस्युत्सो देवहिरण्प्रजम् रत्नम् सधस्तमासदत् आवृत्यम् भरुणम् वाज्यर्षति निभर्दूतोऽवीचक्षणः पुराणस्वादाग्रे विरव्यो मा रे मलित्रियः त्वम् विप्राभवोङ्गीरस्तभो मध्वा यज्ञम् मे विक्षणः सोमो मे द्वाङ्गते गाधितापरशिर्विप्राभिचक्षणः त्वङ्गविरभव देवसूर्यम् रोहयो दिवि सोमा वृषुबाल सोदृभिरझष्णभिरवीनाम् अश्वा एव हरिता याति धाराया मन्द्रया याति धाराया गोमान् गोभि रक्षाः सोमो दुर्भि रक्षाः समुद्रान्न संवरणान्य मदायतोसते आसोमसु पुरिशम्भोर्विषद्धरिषतो समावृते तिरो अन्वार्येश्वर्नवाजयोः अनुवाद्यः पवमानो मलेशिभिस्तो भो विप्रेभक्पाभिः प्रतो सिन्धुर्न विद्ये अन्नसा अहंसो प्रजासामधिलो विरच्छा विरच्छकोशम् मधस्तुतम् आगर्यतो अर्जुने अर्गे अव्यदप्रियः सोऽनुर्नमद्याः तमे प्रसोदसारथम् नदीक्ष्वाकपस्त्योः अभि सोमास आजवः पवन् ते मध्यम् मुद्रस्याधिविष्टवीमनीषिणो मत्सराजस्वर्विदाः तत्समुद्रम्बालभूर्वि नाजा देवलतम् बृहत् अर्हन् वित्रस्य परुणस्य धर्मा नागन्बालऋतम् बृहत् ये भानो हर्यतोऽपि चक्षणो राजा देवस्य पुत्रिजाः यमव देवदः सोमो मरुत्वा ते सुतः सहस्रधारो मत्यव्यमर्षतिगमे भजन्त्यः कुलालस्तमोदनयन् मलिम् कविः सोमो देवेषु रण्यति अपोसा नः परिगोभिरुत्तरस्यैदन्वनेष्वव्यत सभाहंसो मराणसख्ययिन्दो दिवे दिवे भ्रोणि च रन्ति माङ्गीः उदाहन्नत्रिवासख्याय बभ्रबूधानिवम् प्रमतिसूयम् परश गुनाजीवपप्तिमा विजमानः सुखस्तसपुत्रे वाच विन्वसि ङ्गम् बहुलम् भूदस्पृगम् पपमानाभ्यर्षसि जानो वा पपमानो अव्यये वृषा चक्रदो वनेः देवानाम् सोममाननिष्कृतम् गोभिरञ्जानो अर्षसि अवस्वराजातयेभियि काव्याः त्वम् पुत्रम्परिपार्थिवो दिव्या च सोमधर्माभिः त्वां विप्रा सोमतिभिर्विचक्षण सुब्राह्मी वन्ति धीतिभिः अपामानादृक्षण र्षती दुर्वियानः सोतृभिः जनयन्दो निर्मन्दना अवीव सद्गा कृर्निलम्धो मत्तमहिन्द्रा योमकृजभित्ता मोमदाः मयद्रुक्षता मोमदाः यस्य देपीत्वा ऋषगोर्मिराः प्रचेतो अभ्यक्रमे चावाजन्यसह त्वङ्ग्याङ्गदेव्यापममानजनीयमालिद्युमत्तामृतत्वाय घोषदाः एनानवघोषद्यङ्गोन्मृते येन विप्रा सहापिने देवानाम् सुम्ने अमृतश्च चारो नो ये रस्वसोः एषस्य धाराया सुवारेभिक्पते मदिन्द्रीरन्निरपामीव युश्रियाप्या अन्तरस्व नो निर्गायन् रतोमश्यम् वर्मीव धृष्णमारुच आसो तापरीषञ्चदास्वन्नस्तोमा मत्तुरम् रजस्तुरम् वराक्रक्षबूधकृतम् सहस्रधारम् ऋषभम् पाजो वृधम् प्रियम् देवायजन्माने ऋते दे रज ऋतजातो दे राजा देव ऋतम् रहति अभिद्युम्नम् रहज सयिषस्पते वयोः मध्यमं विपोशम् मध्यमम् युह आवत्यस्व सुक्षम्भो विश्वस्वतीतिमपाष्टजेधियाः एतवत्यम् मा द्युतम् सहस्राधारम् वृषभम् दिवो दुः इश्रावसो निविघ्रातम् ृढा विजङ्लयपञ्चोतिषातमाः सोदः कविर्निर्नियम् दधे सुधास्य संसारो वसूनाम् यो राजामानेताज इलानाम् सोमोजः सुक्षितीयाम् यस्य नयेन्द्रपिपाद्यस्य मरुतो यस्य वा यमणाभगाः येन मित्रावरुणाकरा महरेन्द्रमसे महे इन्द्रायसो पपादवेन्द्रभिर्यत स्वायुधो वचिन्तवः पवस्वधूमत्तमः हा। इन्द्रस्य हार्दीसोपधा नमाभि ससमुद्रभीपसिन्धवः दुष्टो मित्रायवरुणाय वाजवे जिवो विष्टम्भुत्तमः हरिप्रधन्वेन्द्राय सोमस्वादुर्मित्राय भूष्णे भगाय इन्द्रस्ते सोमसुतस्य पेजाह्े दक्षाय विश्वे च देवाः देवामृताय महेक्षयाय स शुक्लर्षदिव्यः पीजूः अवश्व सोम महान् समुद्रा पिता देवानाम् विश्वाभिधाम शुक्रः पावस्व देवेभ्यः सोमदिवे पृथिव्यै सन्तः प्रजायैः दिवो धर्ता श्रीशुक्रव्यूढः सत्ये बुधन्वाजी पावस्वसोमद्युम्ने सु महाबवी मानो जज्ञानः पूतः इन्दुः पुनानः प्रजापो राणः करद्विश्वा निद्रवीनानिनः स्वतो वक्रद्वेदक्षाय शोरनिक्तो वाजीधनाय सोतारोलसम्मदाय पुनन्ति सोमम् भवेद्युम्नाय जा। सुषुं जज्ञानम् घनिम् भृजन्ति मैत्रे सोमम् देवेऽभ्य इन्दुम् छिन्दः पविष्टचारमुपस्थे कविर्भगाय विभर्जितारविन्द्रश्चमले रविष्टाय भृत्रा जघानस्य दि विश्वे देवासो गोभिः श्रीतस्य निर्भिस्तुतस्य न सो बालोऽक्षासहस्रधार शिरः पवित्रम् निमानभव्यम् अपाद्यक्षासहस्ररेता अध्यर्मृजादो गोभिः श्रीरानः रसोमजायेन्द्रस्य कुक्षाटभिर्जे पादो अद्रिभिः सृतः असर्जिवाधीरपवित्रमिन्द्राय सोमः सहस्रधारः अन्यन्तेवदसेनेन्द्राय वृष्टयिन्दंवदाय देवेभ्यस्त्वा वृथापादसेपोऽवसानम् हरिम् व्रजन्ति इन्दरिन्द्रायतोशते नितोऽसते श्रीरम् रुग्रो ऋणन्नपः पथन् वपाजसातजेपदि वृत्राणि सक्षणीः ऋणस्तरध्यारुणयानयीयसे श्रुतम् सो ममतामसि महेश मर्यदाघे माजा पनप्रगाहसे अजीजलो हि पनसूर्यम् बिहारे सत्पापजाः गोजीरजारम् जापातः पुरम् ध्या मृतमध्येष्वामृतस्य धर्मन्नमृतस्य दारूणः सदा सरोचमच्छासनिष्यदत् अभ्यभिश्रवजा तदर्थितोपन्नकञ्चिज्जनपानमक्षीरम् सर्याभिर्नभरमानो गमस्त्योः े धित्पस्य मानास आप्यम् वसरुतो दिव्या अभ्यानोषत वारम् न देवः समिताव्योदे वेदो मप्रसमावृत्तपरिगिणो महे वाजायश्रवासेधियम् लदुः सत्पन्ना वीरवीर्याय चोदय ूढम् पूर्वम् य दुःखम् महोगाः दिवानिरधुक्षत इरन् अजयिमे पदसी इमा च विश्वाभुवनाभिमद्मना यूथे निष्ठा वैषवोऽ दृष्टसे सोऽपुराणोऽव्ययेमारे सुर्न क्रीडन् पवमानो अक्षाः सहस्रदासदाजिन्दोः हे रो रामो धूमान्दायेन्द्राजेन्द्रोः पवदे स्वादुरूर्मिः विद्वयोधाः स पव स्वसह मानप्रधन्योऽसे धृक्षांसदुर्गहाणि स्वायुधः सा समाशत्रूणि अजा ऋचा हरिण्या पुनानो विश्वाद्वेषाम् स्वयुग्मभिः सूरोनस्वयुग्भिः धारासुनस्य रोचते पुनानो हृषो हरिः विश्वाय ध्रूपातृग्भिः सप्तास्येभिः तृभिर्मर्जयसि स्व आदमा ऋतस्य देतिभिर्दमेतो न सामसद्यत्राणम् तितया विधातो विररूढे गर्वजोदेवोच मानोपयोदधे पूर्वामलप्रदिशम् जाति चेकीतत्संरस्पभिर्यतते दरि सतोरसो देव्यो दरिशतो रसाः अग्मन् उत्थानि भोंसेन्द्रम् चैत्राय हर्षयन् वज्रस्तयद्भवथो अनापच्युता सवस्वनापच्छ्युता आनम् वावोरोधियो व्यव्रता निगरानाम् रक्षाष्टम् ऋतम् बिलग् ब्रह्मा सुन्वन्दामिच्छतीन्द्राये परिश्रव जोषाधिभिः पर्नेभिः स गुणाना आत्मातोऽस्मभिर्दुभिर्भिरङ्गमिच्छतीन्द्रायेन्दोपरिश्रव आरुरहन्तोभिषगोबलप्रक्षिणी न नानाधियो वसूयवो नु गाजीवतस्थिमेन्द्रायेन्दोपरिश्रव अश्व बोधाः सुखम् रथम् हस रामोपमन्त्रिणः शे भोरोमन् वन्दौ भेदौ वारिन्मण्डू गायिच्छतीन्द्रायेन्दोपरिश्रव शर्यनावजिसोपविन्द्रः पिबतु रत्रः आत्मनि करिष्यन् वीजम् महदिन्द्राम्बदात्सोद्वः लागेन सत्येन श्रद्धया सा सु इन्द्राजे श्रव अर्जन्यावृद्धम् महिलम् तम् सूर्यश्च ङ्गलम् सर्वा प्रत्यग्रभ्रान् दोपरिश्रव कृतमदम् नम्बरम् सत्यब्रह्म श्रद्धाम सोमराजन् धात्रागो अपरिष्कृत इन्द्राजयन् दोपरिश्रवा सत्यग्रस्य बृहतः संश्रवन्दितं श्रवाः ञ्जन्तिरसि लोलसाः पुनो ब्रह्मणाभर इन्द्राः जयन्तोपरिस्रव यत्र ब्रह्मा परपमानशन्दस्याम् वासं वदन्न सोमे महीयते सोमे आनन्दम् जनजन्निन्द्राः जयन्तोपरिस्रव यत्र ज्योतिरजस्रम् यस्मिन् लोकेश्वर् हिरम् तस्मिन् माम् देहि पवमानामृते लोके, पवमा दे लोके अक्षिरयीन्द्रायेन्दोपरिश्रव यत्र राजा वैवस्वतो यत्रा वरोदनम् दिवः यत्रामो जग्वीरावस्तत्र मामृतम् कृधीन्द्राजेन्दोपरिस्रव यत्रानुगामन्तरानेन्द्रना लोकायत्र ज्योतिष्पन्द्रमामृगणम् कृधीन्द्रायेन्द्रोपरिश्रव यत्रामानि कामाश्च यत्र भद्रश्च विष्टवम् स्वधाय यत्र तृप्तिश्च तत्र मामृगम् कृधीन्द्रायेन्द्रोपरिश्रव यजत्रानन्दाश्चमूराश्चमुदः चमुदा प्रमुदासते कामस्य यत्रा कामास्तत्र मामृतम् गृधीन्द्रायेन्द्रोपरिश्रम एन्द्रो पनस्यानुदामान्यक्रामेत् समागस्व प्रजादिव नैन्द्रायेन्द्रोपरिश्रव कृताम् सोमेकस्य भोद्वर्धयन् गिराः सोम् नमसारा नन्दो यज्ञे विरुधाम् पदेन्द्रायन्दोपरिश्रव सप्तो राराधूर्या सोगारऋत्विराः देवा आदित्याजे सप्तदेभिः सोमाभिरक्षणेन्द्रायन्दोपरिस्रव रिस्तेन सोमाभिरक्षणः राधीमानस्तारी मोचनः किञ्च नाम मदिन्द्रायेन्दोपरिश्रव यद्रदत्परमम् पदम् विष्णो लोके वा हीयते देवैः सुकृतकर्मभीष्टक्रमामृतम् कृतीन्द्रायेन्दोपरिस्रव यत्र तत्परमाय्यम् भूतानामधिपतिम् भावभावी च योगीश्च तत्र माममृतम् गृहीन्द्राजेन्द्रोपरिश्रव यजत्र लोकास्तलोच्रध्वजातपसाधिता तेजश्च यत्र ब्रह्म च तत्र माममृतम् गृहीन्द्राजेन्द्रोपरिस्रव यत्र देवामाहात्मानश्चेन्द्राश्च मरुगणाः गङ्मा च यत्र विष्टश्च तत्र मामवृतम् धृधीन्द्रायेन्द्रो परिश्रमा यत्र गङ्गा च यमुना च यत्र प्राची सरस्वती यत्र सोमेश्वरो देवश्चत्र मामवृतम् परिस्त्रवा ीन्द्राजयेन्दो परिश्रमः विश्वेश्व अग्रे बृहन्वृगदा बोद्धोऽस्ताङ्गर्जघन्वान्तमसो ज्योतिषागात् अग्रर्भा सा स्वा जातो विश्वासपाः जातो परितमारभ्यधिकनिक कृष्णोत्था रममस्य विद्वान् जातो बृहन्नभिवादितृतीयम् आशाविदश्च अभ्यर्थम् तत्र अतः भूत्वापि सुवृतोेरम् नामृतम् प्रतीतरम् जन्नैः चायीम् वृत्ते पुनरण्यरूपो भासि त्वम् विक्षुमानुषेषु होदा कोलाम् धित्ररथमध्वरस्य यज्ञस्य यज्ञस्य त्याभिम् देवस्य देवस्य मह्ना स्वित्वा अग्निमती चिन्जना स तु वस्राण्यधे नो अग्निम्ना भा पृथिव्याः अरुणो जातः पतयनाया आयुद्यावाग्नौ देदा न मातराोऽशतो जय विष्टादास्येतदेवाने वितो जय विष्टविद्वामृतोम् वेपदेह ये दीनस्तेभिरथे त्वम्भोत्रे रामस्य जिष्टः श्रीपोत्रमुतपोत्रम् जनाम् धातासिद्रविनोदाुदावा स्वाहाभयम् स्वाहा माहवीम् श्रीदेवो देवाय चत्वग्निरहन् आदेवा नाम विबन्थामयन्मयच्छक्रवा मतम् प्रबोहम् अग्निर्विद्वान् दासे दो दातो हरान् सर्जोन् कल्पयाति यद्वो वयम् राजिरामप्रदाले विदुषाम् देवाभिदुष्टाः अग्निष्टद्भिदेवान्भिर्देवान् रजभिकल्पया दे यद्वाग्रामनादान्मते मर्त्या अग्निष्ठद्धोदाकृतविद्वीजानम् ज्येष्ठो देवा रामणीकम् चित्रम् केतुम् व्यनीतात्वा जगान व भ्रुवतीरमोक्षा स्वार्हायुषाः श्रुमतीर्विस्वजन्याः यम्पाद्या वा पृथिवीयम् त्वा भस्मष्टायम् त्वा सुजनीमाजाननः प्रविद्वान् ो राजन्नतिः समिद्धोरौ द्रोद्रक्षराय सुगिद्भिति भासायन्न कृष्णाञ्जयी जनयन्योषाम् बृहदपि दुर्जा ओ जम्भारुम्भो जलस्तभाजम् दिवो वसोभिरतिर्विभाति भद्रो भद्रयास च मान आगातुर्भितिष्ठन् न सद्भिर्वङ्गैरीरामस्ताद्मादोभिन्दानाग्ने सख्य शिवस्य ृष्टा विहतस्वा सो भामा सोजामन् नक्तवश्चिकित्रे स्वनानयस्य भामा सपवन् धे रोदमानस्य बिहतस्तुदिवः ज्येषेभिर्यस्ते विष्टे क्लेशमध्यर्वर्निष्टे सर्वानुभिन्नक्षर्या स्य जड्वानस्य स्व नयन् निरुद्भिः रत्नेभिर्जोर सद्भिर्देवोद्योः अद्य सुलस्तुभिरस्वैरवस्वद्भीरमस्वाेकगम्याः भुवो यथाप्यो लोभवेषु धन्वन्निव अभिसंतरं पूर्वमे प्रयन्वादनादो अभिसन्दरम् दिगावभुषणमिवम् व्रजम् जविष्टूयो देवानामसि मन्दर्मान्तरसि रोचनेन रेण्यम् वर्धयम्भक्ति स जनस्य माना धिप्रवता याधिगीषे बधुरियम् जीयत्वमहित्वङ्गमित्से जिह्वान् रेह्यते युवतिम् विश्वतिः सन् जायते सनायासुनम् धूमनेतुः अस्रारोभो न प्रमे दिशते प्रमयम् प्रमत्ताः रामलूरशराभिर्दी लभ्यधीराम् इयम् अग्ने नव्यसीवनीरसन्नभिरङ्गैः ्रह्म जले यादवेदो नमश्चेयम् जगीषतमिवधीभूत् नेतन यानि दोकारोदस्तन्वोप्रविच्छन् एकस्य पुत्रो धर्मो रजीयामस्मद्धृतो भूरि जन्मापिष्टे श्रीभक्त्यो धर्मध्ये निहितम् पदम् वे समानम् नीलम् मृष नोपसारेन्दरे मित्राशिम् जग्तुर्बर्धयन्ति ध्रुवस्य गवे चित्तम् मनसायन्ताः घृतस्यैव कनयः सुजागविशो वाजा अधीवासंरोदीवावसाने घृतैरन्नैर्वा वृथा देवधूनाम् सप्तश्ववसानो विद्वान्मध्वबुज्य भारात्रिसेकम् अन्तर्येवे मे अन्तरिक्षे पुराजा यच्छन्मब्रिमा विदत्पूषणस्य र्यादाकवयस्तदक्षस्तासामे का कालिदभ्यम् लोगात् आयोर्घस्कम्बभूपमस्य नीमे वदाम्बि सर्गे धर्मेस्थौ असश्च परमेव्यो मन्दक्षस्य जन्मन्नदीते रूपस्थे अग्निर्ह न प्रथमजालिदस्य पूर्व आयो निवृषभस्य धेनुः भद्रन्नो अपेवाद्रय ममः ओ